अथर्ग्वेदेषिष्ठाष्टके द्वितीयोऽध्यायः ओ वयमुत्वामपूर्य स्थूरन्न कच्चिद्भरन्तो वस्य वाजे चित्रम् हवामहे सखाय या हीम इन्दवोऽश्वपते गोपत उर्वरापते सोमं सोमम् सोमपतेऽपि वयम् हि त्वा बन्धुमन्तमबन्धवो विप्रास इन्द्र एमिमा या ते धामानिवृषभदेभिरागहि विश्वे एभिः सोम पीतये सीदन्तस्ते वयो यथा गो श्रीते मधौ ओमधिरे विवक्षणे अभित्वामिन्द्र नो नुमः अच्छा आच त्वयिना नमसा वदावसि किं कोश्चिद्विदे जयः सन्ति कामासो हरिवो ददिष्पम् स्म भयम् सन्ति लोधियाः नोत्ना इन्द्रते वयभूते अभूम न हि विद्मा पुरापरेण सह विद्मा सखि त्वमुतशोरभोज्या अमातेता वज्रिन्नीमहे उतो समस्मिन्नाशिशीहिनोपसोवाजे सुषिप्रभोमति यो न इदमिदं पुरा प्रवस्य आनिनाय तमुवस्तुषे सखा आय इन्द्रमूतये हर्यश्वम् सत्पतिम् चर्षणी सहंसहिष्मायो अमन्दत आतो स वयतिगौ यमश्वम् स्तोतृभ्यो ओमघवा आशतम् त्वया आहस्विद्युजा वयम् प्रतिश्वसन्तम् वृषभब्रुवीमहि संस्थे जनस्य जये एमकारे पुरुहूतकारिणोऽभितिष्ठे मदूर्ध्याः नृभिर्वृत्रम् द्र द्र हन्यामशोषु यामचावे एरिन्द्रप्रणोधियाः अभ्रातृर्यो अनात्मनापिरिन्द्रजनुषाः सनादसि युधेदापि त्वमिच्छसे न के एदेवन्द्रम् सख्याय बिन्दसे पीयन्ति ते सुराश्वाः यदा कृणोषि न तनुम् समोहस्यादित्पिते माते ए अमाजुरो यथा मूरास इन्द्रसख्ये त्वामतः निषदामस चा माते ए गोदत्र निररामराधस इन्द्रमाते ये गृहामहि गृह्णाचिदर्यः प्रमृशाभ्याः रणते एवान आदभे ए इन्द्रो ओबाघे दियन्मघम् सरस्वती वा सुभगा आदतिर्वसु तम् वा आचित्रदाशुषे हे चित्र, चित्र इद्राजा आराधका इदन्यके यके सरस्वते मनो पर्जन्य इव ततनद्धिवृष्ट्या सहस्रमयुताददत् ओत्यमः आरथमर्जादम् शिष्ठमूतये यमश्विना सुहवा रुद्रवर्तये आसूर्यायैतस्थोः पूर्वापुषम् सुहवम् पुरस्पृहम् भृज्युम्वाजेषु पूर्वम् स चरामन्तम् सुमतिभिः स्वफले विद्वेषसमनेऽसम् इहत्यापुर्भूतमादेवा नमोभिरश्विना पर्वाचीनास्पवसेकरामहे गन्ता राधाशुषो गृहम् युगो रथस्य परिचक्रमी यत ईर्माण्यद्वामिषण्यति अस्माच्छा आ, आ सुमतिर्वाहंशुभस्पति आधेनुरिवधावतु रथो यो वाहन् त्रिबन्धुरो हिरण्याभीषु रश्विना परिद्या वा आपृथिवी भूषति श्रुतस्ते न सत्यागतम् दशस्यन्तामनवे पूर्व्यन्ति वियमृकेण कर्षथः ता वा आपद्य सुमतिभिः शुभस्पते अश्विनाप्रस्तुवेमहि उपनो वाजिनिमसुजातमृतस्य पथिभिः येभिस्तृक्षम् मृषणात्रासदस्य महे क्षत्रा जजिन्मथः अयम् वामद्रिभिः सुतः नरा वृषण्वसु आया आतम् सोमपीतये रिभतम् दाशुषो गृहे आहिरुहतमश्विनारथे कोशे हिरण्यये वृषण्वसु गुञ्जाथाम्बीवरीरिषाः याभिः पक्थमवधो याभिरध्रिगुञ्जाभिर्बभ्रुम् युरोषसम् ताभिर्नो मक्षोतोऽयमश्विनागतम् भिषज्यतम् यदातुरम् यदध्रिगावो अध्रिगो इदाचिदम् नो अश्विना, इदाचि अश्विना हवाहामहे वयङ्गेर्भिरविपन्यमाह ताभिरायातम् वृषणोपमेहवम् विश्वत्सुम् विश्ववार्यम् इशामम् हिष्ठा पुरुभूतमानराजाभिः कृमिम् वा वृतस्ताभिरागतम् चिदः आनान्ता वश्विना वन्दमानमुपब्रुवे ता ऊनमोऽभिरेमहे ता विद्दोषाता उषसि शुभस्पतितायामन् रुद्रवर्तनी मा नो नर्ता आयधिपवेजिनीवसु परो रुद्रावतिक्षतम् आसुज्ञा आयसुज्ञम् प्रातरथे एनाश्विना आवासक्षणी हुवे पिते वसोभरी मनोजवसा भृषणामदच्युतामक्षुङ्गमाभिरूदिभिः आरात्ताचिद्भूतमस्मे अवसे पूर्वीभिः पुरुभोजसा आ नो अश्वादश्विना वर्तिर्याः शिष्टम् मधुपातमानरा गोमद्दस्रा सुप्रावर्गं सुवीर्यम् सुष्ठु वार्यमनाः धृष्टम् रक्षस्विना अस्मिन्नावा मायाने वाजिनीवसो विश्वा आवामानि धीमहिष्वाहि प्रतीम्याजस्वजातवेदसम् चरिष्णुतो मम गृभेदज्योतिषम् दामानम् विश्वदर्षणेऽग्निम् विश्वमनो गिरा उतस्तुषे विष्पर्धसो रथानाम् एषा निग्रभे उपवितापह्निरविन्दतेवसु उदस्य शोचिरस्थाद्दियुषोग्याचलम् शो उदुतिष्ठस्वध्वरस्तवा आ नो कृपा अभिख्या भासा बृहतासु शुक्वनीः अग्ने याहिषु शस्तिधर्हव्या जुह्वा आन आनुषत् यथा आदूतोपभूथहव्यवाहनः अग्निम्बः पूर्व्यम् हुवे होतारञ्चर्षणीनाम् तमया वाचा कृणे यज्ञे कृपासूदयन्त इत् मित्रन्न जने सुधितमृतावलि मृतावा आनमृतायवो यज्ञस्य साधनम् गिरा उपो ओजेनजुदुषुर्नमसस्पदे अर्चा आ नो संयताः होतायो अस्ति विक्ष्वायशस्तमः अर्धेतवर्त्ये अधरेऽन्धाः नासो बृहद्भाः अश्वाः इव वृषणस्तविषे यवाः स त्वन्न ऊर्जाम्पदे रजिम्राः स्वसुवीर्यम् प्रावनस्तोकेतनये समत्स्वा यद्वाहु विश्वदिश्यतः सुप्रेयेतो मनुषो विषि विश्वेदग्निः प्रतिरक्षांसि सृष्ट्यज्ञेन वस्य मे स्तोमस्य वीरविष्पते निमाजिनस्तपुषा रक्षसो यो अग्नये एतदाशहव्यदातिभिः व्यश्वस्वा वसुभिदमुक्षण्युरप्रीणादृशीः महोराजेतमुत्त्वा आयजिन्वा मनवे जातवेदसम् विश्वेहित्वा सजोषसो देवासो दूतमक्रत सृष्टिते दे एव प्रथमो यज्ञियो भुवः इमङ्घाः वीरो अमृतम् दूतम् गृह्वीतमर्त्याः पावकम् कृष्णवर्तरिम् विहायसम् तम् भुवे मयतसृचः दिशामग्निमदरम् रत्नमीड्यम् यो अस्मै हव्यदातिभिराहुतिम् मर्तो विधत् भूरिकोशं सदत्ते वीरवद्यशाः प्रथमम् जातवे एतसमग्नि पूर्व्यम् रतिस्रुगे एति नमसा हविष्मति आभिर्विधेवाग्नये ज्येष्ठाभिर्यश्ववत् मम् मौनमर्थविहा आयसे सोमे एभिः स्थूलयो भवत् ऋषे एव यश्वतम्या आयाग्नये अतिचिंमानुषाणाम् सूनुम् वनस्पतीनाम् विप्रा अग्निमवसे प्रत्नमीलते महो विश्वान्मभिषतो ओ ओभिहंव्यानिमानुषा अग्नेनिषत्सि नमसाधिबर्हिषि स्वाह suveriyasya भार्याः पुर्वं स्वरायः पुरुःस्पृहाः सुवीर्यस्य प्रजावतो यशस्वतः त्वम् वरो सुषाम्नेऽग्ने जनायचोदय सदा आवसो रातीयविष्ठशश्वते त्वम् हि सुप्रतोरसि त्वम् नो गोमतीरिषाः व्रता वा आना सम्राजा आपूतदक्षसा सखा आय आशिषामहि ब्रह्मेन्द्रा आय वज्रिणे स्तुष ऊशुभो नृतमाय धृष्णवे शवसाह्यसि रेके जिद्यो हरिभो वसुर्ददिः आनिरेकमुत प्रियमिन्द्रदर्शि जनाः नाम् धृषता धृष्णोस्तवमान आभर न ते एषव्यन्न दक्षिणम् हस्तम् वरन्त आमुराः न परिबाधो ओहरिभोगविष्टिषु स्माकामं यदि तु रामनः प्रण विश्वा आदिभिश्वमनसोऽधिया नो वृत्रहन्तम उग्रप्रणेतरधिषु वसो गहि वयन्ते ए अस्य वृत्रहन् विद्यामशूरनम् व्यसः वसो ओस्पार्हस्य पुरुहूतराधसः इन्द्रयथाह्यस्थिते आवृषस्तमहामहमहेन्द्रतमराधसे दृह्श्चिदृह्य मघवन्मघत्तये नो अन्यजत्रास्पन् नो ओ जग्मुराशसाः मघवम् छग्तपतन्न ऊतिभिः प्रराधसा महित्वना। उपोहरे महि त्वना उपोहये एणाम्पतिम् लक्षम् वृञ्चन्तमब्रवम् नूनम् श्रुतिस्तु पतो अश्वस्य न ह्या अङ्गपुराचलयज्ञे वीरतरस्पत् न के एराया नैव धानभन्धना सिञ्चवा आध्वर्यो अन्धसः एवाहि वीरस्तपते सदा इन्द्रस्थातर्हरेणान्नष्टे पूर्व्यस्तुतिम् उदा आनम् शशवसानभन्दनाः तम् भो वाजा आम्बतिमहो महिश्रवस्य वाः अप्रा आयुभिर्यज्ञेभिर्वावृधेन्यम् एतोऽन्विन्द्रंस्तवा आमसखा आयस्तोम् यन्नरम् कृष्टीर्यो अवो ओरुधाय कविशेद्विक्षाय रस्म्यम्बचाः धृतात्स्वादी यो मधुनश्च वोचत यस्यामि तानि वीर्यानराधः पर्ये एतवे ज्योतिर्न विश्वमभ्यस्तिलक्षिणा स्तुहेन्द्रम् व्यश्ववदनोऽर्म्यम् वाजिनयमम् अर्योगजम्ब मानम्बिताशुषे लूनमुपस्तु पस्तुहि वै यश्वदशमन्नपम् सुविद्वाम् सञ्चरकृत्यञ्चरणीनाम् वेत्था हि निरतीनाम् वज्रहस्तपरिव्रजम् अहरहः सुन्ध्युः परिपदामिव तदिन्द्राभादम् तिष्ठकृत्वने विताकुत्सायशिष्णसो निचोदय तमुत्वा नो नमि महे नव्यन्तम् सिष्ठसन्न्यसे स त्वन्नो विश्वाः मुचद्यो वार्यात्सप्तसिन्धुषु वधर्दासस्य तु विनम् नी नमः यथा आवरो सुषाम्णे एसनिभ्य आवहो रजिम् यश्वेभ्यः सुभगे वाजिनीवते कुँ हया कुँ आ नार्यस्य दक्षिणाव्यश्वाम् ये तु सोमिनाः स्थूलम् च राजः शतवत्सहस्रवत् यत्वा आपृच्छादे एानः कुहया कुहया कृते एषो अपश्रितोपलोगो ओमतिमवतिष्ठति ताभाम् विश्वस्य गोपा देवा देवेषु यज्ञिया वृता वा मित्रातनानरथ्या आवरुणो यश्च सुक्रतोः सनात्सु जातातनया धृतौ रता ता वाता विश्ववे एतसा सुर्या आयप्रमहसा महेजजानादितिरृतावरी महान्ता आविद्रावरुणा सम्राजा आदेवावसुरा वृतावा आनावृतमाघो ओषधो बृहत् नपा आताशवसो महसो नो दक्षस्य सुक्रतो सप्रदा आनो इशो वास्वधिक्षितः संयादानो निजे मधुर्दिव्याः पार्थिवीरिषाः नभस्वतीरावाञ्चरन्तु वृष्टयाः अधिया बृहतो दिवोभियूथे वपश्यतः ऋतावाना सम्राजा नमसेहिता ृतावारिषेदतुः साम्रा आज्याय सुक्रतो धृतौ व्रता क्षत्रियाः क्षत्रमाशतुः अक्ष्मश्चिद्गातु वित्तरानुल्बे न चक्षसा निचिन्विषन्ता आ निचिरा उतनो उत नो अदेव्यरितिरुरुष्यतान्ना सत्या वरुष्यन्तु मरुतो वृद्धशमसः तेनो नावमरिष्यदधिपानक्तम् सुदानवः अरिष्यन्तो निपायुभिः स चे महि अग्नते विष्णवे वयमरिष्यन्तः सुदानवे श्रुतिस्व यावन्सिन्धो पूर्वचित्तये तद्वार्यम् वृणीमहे वरिष्ठम् गोपयत्यम् मित्रो यत्पान् त्रिवरुणो यदर्यमा उतरः सिन्धुरपान्तन्मरुतस्तदश्विनाः इन्द्रो विष्णुर्मेद्वांस्रजोषसः ते हिष्मा वनुषो न रोपिमाऽधिङ्कयस्य चित् तिग्मन्न क्षोदः प्रतिघ्नन्ति भोर्नयः अयमेक इत्था पुरोऋतश्चेवि विष्पतेः तस्य उतान्यनुवश्च रामसि अनुपूर्वाण्योक्यासाम् राज्यस्य मित्रस्य उरतावरुणस्य दीर्घश्रुत परियो रश्मिना दिवोऽन्तान्वमे पृथिव्याः उभे आपप्रदसीमहित्वा उदुष्यशरणे दिवो ज्योतिरयंस्तसूर्याः अग्निर्नशुक्रः समिधान आहुतः वचो दीर्घप्रसद्मनीषे वाजस्य गोमतः ईशे हि पित्वो विशस्य धावने तत्सूर्यम् रोदसी उभे दोषावस्थोरुपब्रुवे भोजेष्वस्माम् अभ्युच्चरासदा वृज्रमुक्षण्यायने रजतम् हरयाणे रसञयुक्तमसनामसुषामणि रामे अश्व्या आनाम् हरेणाम् नितोषना उतोऽनुकृत्या आनाम् नृवाहसा स्मदभीषोकशा बन्ताभिप्राणभिष्ठयामते महोभाजिनावर्वन्ता स चा आसनम् युवोरुषोरथम् हुवे सतस्तुत्यायसूरिषु अतोर्तदक्षा वृषणा वृषण्वसु युवम् वरो सुषाम्णे महेतने एनासत्या अवोभिर्याथो वृषणा वृषण्वसु तावा आमद्यहवामहे हव्येऽभिर्वाजिनीमसु पूर्वीरिष इषयन्तापति क्षपः हिष्ठो अश्विना रथो यातु श्रुतो नरा उपस्तो मान्तुरस्य दर्शथश्रिये जुराणाचिदश्विनामन्येताम् षण्सो युवम् हि अतिद्विशाः अतिद्विषाः दस्रा हि विश्वमानुषम् मक्षोभिः परिदीयथः मधुवर्णा शुभस्पते उपनो यातमश्विना राजा मघवा आ सुरावनप्रच्युता आमे अस्य प्रतीव्या अमिन्द्रना सत्यागतम् देवा देवेऽभिरद्य सतनस्तमा वयम्भवाण्यन्तो व्यश्पवत् सुपतिभिरुपविप्राभिहागतम् अश्विना स्पृशे स्पृशिपुवित्ते श्रवतो हवम् ने देयसः कूलयातः पळीम् वै अश्वस्य श्रुतम् न रोतो मित्रो अर्यमा युवा दत्तस्यधिष्ण्या युवाने एतस्य सूरिभिः अहरहर् वृषणा मह्यम् शिक्षतम् यो वा यज्ञेभिरामृतोऽधिवस्त्रा वधूरि अश्विना यो वा आमुरव्यचस्तमञ्चिके एतति नृपाय्यम् वर्तिरश्विनापरियातमस्मयो अस्मभ्यम् सुवृषण्सूयातम् वर्तिरनृपाय्यम् विषुद्रुहे एव यज्ञमोहथुर्गिरा वाहिष्ठो वाम् हवानां स्तोमो धूतोः बन्नरा युवाभ्याम्भूत्वश्विना यदतो दिवो अर्णव इषो वामदथो गृहे श्रुतमिन्मे अमर्त्या उतस्याश्वे एतया वरिवाहिष्ठावान्नदीनाम् सिन्धुर्हिरण्यवर्तनिः स्मदेतया सुकीर्त्याश्विनाश्वेतया आजिया वहे एथे शुभ्रयावाना युक्ष्वाहि त्वम् रथा सहा आयुव स्वपोश्या आवसो आ नो वायो मधुपिबास्माकम् सभनागहि तव वायवृतस्पदे त्वष्टुर्जामातरद्भुत अवांस्यावृणीमहे त्वष्टुर्जामा आतरम् वयमीषा आनम् राय ईमहे वायो ओ याहि शिवा दिवो वहस्वासु स्वश्वम् वहस्व महःपृथुपक्षसारथे त्वाम् हि सुप्सरस्तवम् दृषदलेषु भूमहे ग्रावा आणन्नाश्वपृष्ठम् ब्रह्मना सत्त्वन्नो ओ देवमनसा वायो ओमन्धानो अग्र्यः कृथिराजाम् पुरोहितो ग्रावा अणो बर्हिरध्वरे या आमिवरुतो ब्रह्मणस्पतिम् देवाङ्गवोपरेण्यम् आपशुङ्गासि आपशुंगासि वनस्पते एनुशासानक्तमोषधीः विश्वे एतनो वसवो विश्वमेदसोऽधीनाम्भूतप्रापिताराः प्रसून एतध्वरो अग्ना देवेषु पूर्वः आदित्येषु प्रवरुणे धृतव्रते मरुत्सु विश्वभानुषु विश्वेष्मा मनवे विश्ववेदसो भुवन् वृथे रिषादसः अरिष्टेभिः पाजुभिर्विश्ववेदसो यन्ता नो वृकम् छर्दिः आलो अद्य समनसोऽगन्ता विश्वे, वे वे आनौ आनौ विश्वे ए सजोषसः वृचा गिरा मरुतो देव्यदिते सदनेपस्थ्ये अभिप्रिया मरुतो यावो अश्व्या आहव्यामित्रप्रयाचना आ बर्हिरिन्द्रो वरुणस्तुरा नर आदित्यासः सदन्तुनः वयं वो वृत्तबर्हिषो हितप्रयस आनुषक् सुतसो मासो वरुण ह वामहेमनुष्वसिग्धाग्नयः आप्रया आत मरुतो विष्णो अश्विना पूषन्मा के एनया धिया इन्द्र आया आतु प्रथमः स निश्युभिर्वृषायो वृत्रहा गृणे विनो देवासो अद्रुहोच्छिद्रम् शर्म यच्छत न यद्दूराद्बसभो नो चिदन्तितो वरोऽथ मा दधर्षति देवा आसो अस्त्याप्यम् प्रणः पूर्वस्मै सु भक्षो सुम्नाजलं व्यसे यदा इव उपस्तुतिभिरामस्य भक्तये उपवो विश्ववेदसो नमस्युराङ्गक्षिण्यामिव उदुष्यवःसपिता सुप्रणीतयोस्था दूर्ध्वो वरेण्यः निर्भिपादश्चतुष्पादोऽर्थिनो विस्रन्पतजिष्णवाः देवन्दे एवम् दे दे वो वसे देवन्दे एवमभिष्टये देवन्दे एवम् हुवे मवाजसातये गृणन्तो देव्याधिया देवासोहिष्मा मनवे समन्यवो विश्वे ये साकं सरातयः तेनोः अद्यते अपरन्तु चेतु नो भवन्तु परिबोविदाः प्रवशंसाम्यद्रुहः संस्थ उपस्तुतीना नतम् धूर्तिर्वरुणमित्रमर्त्यञ यो वोधामभ्यो विधत् प्रस क्षयन्दिरते विमहीरिषो यो वो परा आजदाशति प्रजाभिर्जायते धर्मणः स्पर्यरिष्टः सर्व एधते ऋते सविन्दते युतः सुगेऽभिर्जात्यध्वनः अर्यमामित्रो वरुणः आतयो इन्द्रायन्द्रे सजोषसः अज्रे एचिदस्मै कृणुधान्यन्तनम् दुर्गे चिदासुसरणम् एषाचिदस्मादशनिः परोनुसास्रे एतन्ते विनश्यतु यदद्य सूर्य उद्यति प्रियक्षत्रा ऋतम् तथा यन्निमृति प्रबुधि विश्ववेतसो यद्वा आ मध्यन्दिने यद्वा आवित्रे असुरा रतञयते वयम् तद्वोपसवो विश्ववेदस उपस्थेयाम ममध्य आ य तद्यसूर उदितेजन्मध्यन्दिन आतुचि पामन्धत्थमनवे विश्ववेदसो जुह्वा आनायप्रचेरसे वयम् तद्वः सम्राज आवृणीमहे पुत्रो न बहुपाय्यम् अश्यामतरा आदित्या जुह्वतो हविर्ये रवस्यो न ये त्रिंशतित्रयः स्परो देवासोपरिहिरासदन्न विदन्नहद्विदासनन्न वरुणो मित्रो अर्यवास्मद्रातिशाचो अग्नयाः पत्नी एवन्तो वषट्कृताः तेनो अगोपा अपाच्यास्त उदक्त इत्थान्यक् पुरस्तात्सर्वया विशा यथा पशन्ति देवास्तथेदसप्तदे एषा न अरा आवाचनमर्त्याः सप्तानाम् सप्तरुष्टयः सप्त द्युम्नान्येषाम् सप्तो अधिश्रियोऽधिरे बभ्रुरेकोऽपिषः सो नरो युवाञ देहिरण्यम् योनिमेक आससा दद्योतनोऽन्तर्देवेषु मेधिरः वाशीमेकोऽ भर्तिहस्त आयसीमन्तर्देवेषु निध्रुभिः वज्रमेकोऽविभर्ति हस्त आहितम् तेन वृत्राणि जिघ्नते त्रिग्ममेको विभर्ति हस्त आयुधं शुचिरुग्रो जलाषभेषजः अथ एकः पीपायतस्करो यथा केशवेदनिधीनाम् त्रीण्येक यत्र देवासो वदन्ति विभिर्द्वाचलत एकया सह प्रप्रभासेव सधो द्वाचक्राते उपमादिभि सम्राजा आसत्पिरा आसुती अर्चन्त एके महिसाम मन्वतते न सूर्यमरोचयन्न महि वो देवा आसो न कुमारकः विश्वे सतो महान्त इत, इत् इति स्तुतासो असथा रिषादसोये स्थत्रयश्च त्रिंशच्च मनोर्देवायज्ञिया सह ते नस्त्राध्वन्ते एव तत उरो अधिवोचत मानः पथः पित्र्यान्मानवा रचिदूरन्नैष्टपरावताः ये देवास इह स्थन विश्वे वैश्वानरा उरा अस्मभ्यम् शर्म सप्रथोगवेश्वा यच्छत यो यजा आति यजा आत इच्छुनवच्छपचा आति च ब्रह्मेदिन्द्रस्य जागणत ोलाशय्यो अस्मै सोमं रत आशिरम् पादित्तम् शक्रो अम्हसः तस्य द्युमाङ्गसद्रथो देवजो तशोशुवत् विश्वापन्वह्नमित्रिया अस्य प्रजावति गृहे सश्चन्ति दिवे दिवे इळा आधेऽनुमते एदुहे यादम्पति समनसा सुनुत आच देवा आसोनित्ययाशिरा प्रतिप्राशव्याम् इतः सम्यम् चा बर्हिरा आशाते न तावादेशु वायतः न ना देवानामपिन्हुतः सुमतिन्न जुभुक्षतः श्रवो बृहद्भिवासतः पुत्रिणाताकुमारिणा विश्वमायुर्व्यश्नुतः उभाहिरण्यपेषसा वीर्योऽत्राद्वसोदशस्यन्तामृता आयकम् समूथो ओरोमसंहतो देवेषु कृणुतो दुभाः आशर्मपर्वतानाम् ऋलीमहे नदीनाम् आविष्णोः स चाभुवाः अयिषु कूषारयिर्भगः स्वस्ति सर्वधातमः मुरुरध्वा स्वस्तदे अनमतिरनर्वणो विश्वो देवस्य मनसा आदित्याना आमनेह इत् यथा आ नो मित्रोऽर्यमावरुणः सन्ति गोपाः सुगालतस्य पन्थाः अग्निम् वः पूर्यम् गिरा देवमी देवसूना सपर्यन्तः पुरुप्रियम् मित्रम् न क्षेऽत्र साधसम् मक्षो देववतो रथः देवानाय इन्मनो यजमान इयक्षत्यभेदयज्वनोऽभुवत् न यजमानरिष्यसि न सुन्वानन देवयो देवानाय इन्मनो यजमान इयक्षत्यभेदयज्वनोऽभुवत् न कष्टम् कर्मणा न सन्न प्रयोषन्न योषते देवानाय इन्मनो यजमान इयक्षत्यभेदयज्वनोऽभुवत् अस तत्र स्वीर्यमुतत्यदाश्वस्यम् देवानाय्य इन्मतो